मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं सवन् मोहासुरविजयवर्णनं श्रीगणेशाय नमः रविरुवाच मदिरायां सुदाः पञ्च तस्माद्दैत्यान्महाबलाः तेजस्विनश्च पित्रा ते बभूवु समशीलताः उग्र क्रूरश्च मेधावी शोचनो हरणस्तथा पञ्चैते शास्त्रसम्पन्नारेज्युस्तगरे द्विजाः ततः काले राजा मोहासुरो द्विजाः आह्वयामासदैत्येषां सकलान् स्वै नरैर्महान् समागतानुवाचाधवचनं हितकारकं दैत्ये शान्निसंयुक्तं सुखदं प्रीतिवर्धनम् मोहासुर उवाच भो भो दैत्यादिपाः सर्वे प्रचण्डाद्यापचो हितं सकलं विश्वं जयेयमधुना किल यदि स्वमानसे दैत्याहितम् भवति चेत्तदा सर्वेषाम् भवताम् कार्यम् कुर्वेऽहम् नात्र संशयः शुक्रेण पालिदायूयम् तथाहमसुरेश्वराः अजेयाः प्रभविष्यामो रवेश्च वरदानदः ततस्ते तम् नमस्कृत्य सञ्जगुर्हर्षसंयुताः महात्मानं महाभागं तपस्तेजः समन्विधं दैत्येशा ऊजुः सम्यग्विचारिता स्वामीं तृप्ता वाक्यामृते न ते जेष्यामः सकलां लोकां स्त्वदाज्ञावशगावयम् न ते पराक्रमे तुल्यो विश्वस्मिन् विद्यते प्रभो अतो विष्णुमुखान्ते वाञ्जेष्यामोन्यांश्च साम्प्रतं रविरुवाच इति मोहासुरस्तेषां वचश्रुत्वा प्रदापवान् आज्ञापयच्च दैत्येषान्मुदा भवदंसिताः ते सर्वे युद्धमार्गज्ञाययुस्तस्य प्रसन्निधौ नानाशास्त्रधरा भूत्वा यममस्तुमिबोध्यताः तान् दृष्ट्वाकर्षितो दैत्यो वीरवांश्च महासुरः रथसंस्थस्वयं दैत्यैर्निर्जगामसदंशिदः चतुरङ्गचमूमध्ये रराचरथसंस्थितः कालरुद्र इवाध्यक्ष सर्वेभ्यो भयदायकः स्वयं शुक्रेण संयुक्तप्रथिवी जयनोद्यतः असुरैः सहित पूर्वं बभ्राम वसुधातले अपारा तस्य सेना सा चादयामास वै धरां चलनोद्धरजस्केन छादितो भास्करोऽभवद कालरूपैर्महादैत्याै प्रयोद्धुं भूमिमण्डले कः समर्धो भवेद्विप्राजितं तैश्वेन तेजसा सप्तद्वीपवतीं पृथ्वीं जित्वा ते सुरसत्तमाः ययुः सर्वे जयार्थाय देवान् विष्णुपुरोगमान् देवा सर्वे समाश्रित्य ससैन्यं चागदं द्विजाः मोहासुरंभयोद्विग्न इन्द्रं ते शरणं ययुः इन्द्रेण सहिता सर्वे ब्रह्माणं प्रययुस्ततः तेन सार्धं च कैलासे शङ्करं शरणं ययुः शङ्करेण युधा देवा वैकुण्ठे केशवं ययुः केशवेन युदा सर्वे भास्करं प्रययुस्ततः भास्करस्तानुवाचाधभयुक्तान् सुरेश्वरान निश्वस्य भयसंयुक्तो वचनं हितकारकं भास्कर उवाच वरदानेन समर्धो दैत्यपुङ्गवः मोहासुरश्च देवेन्द्रास्तं जेतुं कः क्षमो भवेत् कर्मणां फलमुग्रं यच्च्यवदेकेन चिन्नतद अदो वयं वनेश्वद्यवसामो भयसंयुताः त्यक्त्वा राज्याधिकं सर्वं देहं रक्षामहे वयम् पुण्यान्ते तस्य मृत्युर्वै भविष्यति न संशयः अन्यथा दैत्यभूपेन्द्रो मोहदैत्यः प्रतापवान् अनिष्यति स देवेन्द्रं तस्मात् कुर्वन्तु मे वचः एवं वाक्यं वै श्रुत्वा प्राह बृहस्पतिः सर्वनीतिविशेषज्ञो देवाचार्यो महायशाः बृहस्पतिरुवाचा शृणुध्वं देवराजानो वचनं हितकारकं भानुना भाषितं वाक्यं तन्नो भवति वै सर्वे ब्रुवन् देवाः साधु, साधु भानुना च गुरोर्वाक्यम् करिष्यामो वयम् तथा एवम् निश्चित्य देवेन्द्रादेवै सर्वे ययुर्वनम् गुहासुपर्वतोद्देश्ये संस्थिता भयसंयुताः मोहासुरोऽसुरै सर्वैर्देवानाम् नगरेषु च आययौ तत्र देवेन्द्रान् सनापश्यत्सुहर्षितः तेषु दैत्यान् समास्ताप्य स्वयमैन्द्रपदे स्थितः दैत्यैः बुभुजे भोगमुत्तमं गन्धर्वां सेवां चक्रूर्भया कुलाः नाना तथैव महर्षयः तदोगा दैत्यपै सर्वैः सत्यलोकं महाबलः मोहासुरो द्विजस्तत्र न ददर्शपितामहं शून्यं नगरमेवं तद्दृष्ट्वा हर्षसमन्वितः ययौ वैकुण्ठमुग्र वदर्श तत्र तादृशम् ततः कैलासमागत्य शङ्करेण विवर्जितं पुरं वीक्ष्य ययौ महासुरः तत्रादित्यविहीनं च शक्तिलोकं तथा ययौ दृष्ट्वा शक्तिविहीनं तं मुमुदे दैत्यनायकं ततो दैत्येन्द्रमुख्योत्सौ स्वसुतान् बलगर्वितान् स्थापयामासदेवानां नगरेषु विशेषतः कैलासेऽधिपतिं चक्रे ह्युग्रं पुत्रं महासुरः विकुण्ठाधिपतिं तद्वत्क्रूरं दैत्यसमन्वितं सौरलोकाधिपं मेधाविनं चक्रे च गर्वितं शक्तिलोके तथा सोऽपि शोचनं युद्धलालसं सत्यलोकेऽधिपञ्चक्रे करणं सर्वहारकम् प्रचण्डमुख्यकाञ्चक्रे इन्द्रलोकाधिगाधिपान् कालान्तकश्च पादालदेशेषु प्रेषितस्ततः मोहासुरेण नागेन्द्रं ययौ शेषं ससैनिकः कालान्तकं दैत्यराजमागदं च हि नागराट विनयेन ना ययौतं स सामचक्रे सुरेण वै एवं जिगाह्य स उग्रो दैत्यनायकः मोहासुरो महावीर्यो मु मोदे दैत्यपैर्द्विधाः ततः दैत्यो ययौ सर्वैः समन्वितः विषया वासके तत्रपुरेष पुरे स शुशुभे तदः तत्रस्तत्र शशासौ ब्रह्माण्डं लोकसङ्कुलं राज्यं चकार दैत्येन्द्रो दैत्येन्द्रेश्च समन्वितः भोगान् स बुभुजेनाह्यतुलान्विषयप्रियः दैत्याैः सह प्रगर्वेण कृतकृत्यमन्यत ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे तृतीये खण्डे महोदरचरिते मोहासुरविजयवर्णनं नाम सप्तमोऽध्यायः ॐ